श्रीमद्भागवतमहापुराणं नवमस्कन्धम् अथ पञ्चदशोऽध्यायः ऋचिक् जमदग्नि औरपरशुरामजी का चरित्र शेषोकुवाच ऐलस्य चोर्वशी गर्भासरासन्नात्मजा नृप आयुश्रुतायु सत्यायुरथोऽथ विजयोजयः रयस्य सुतेकश्च जयस्य तनयो मितः भीमस्तु विजयस्था विजयस्थस्याथ काञ्चनो होदृकस्ततः तस्य जह्नोऽसुतो गङ्गां गण्डूषीकृत्य योऽपि बलम् जह्नोऽस्तु पुरुस्तत्पुत्रो बलाकश्चात्मजोजकः ततः कुशकुशस्यापि कुशाम्बुस्तनयो वशुः कुशानाभस्य चत्वारो गाधिरासीत् कुसाम्बुजः तस्य सत्यवतीं कन्यामृचिको या च तद्विजः वरं विसदृशं मत्वा गाधिर्भार्गवमब्रवेत् एकत श्यामकर्णानां भयानां चन्द्रवर्चसां सहस्रं दीयतां शुक्लं कन्याया कुशिका वयम् इत्युक्तं तन्मतं ज्ञात्वा गतशपुणान्तिकम् आनीय दत्त्वा तान् स्वानुपयीं ये मे वराननां सरिथि प्रार्थितपत्न्या स्वश्रवा स्थेष्टं मत्वा तया यच्छन्मात्रे मातुरुदत् स्वयम् तद्विज्ञाय मुनिप्राह पत्नीं कष्टम् अकारसि घोरो दण्डधर पुत्रो भ्राताते ते ब्रह्मवित्तमः प्रसादितसत्यवत्यामेवं भूदेति भार्गवः अस तर्हि भवेत्पौत्रो जं दग्निर्सतोऽभवत् काचा भूसु महापुण्या कौशिकी लोकपावनी रेणुसुतां रेणुकां वैजमदग्नीरुवाहतां रुवाहयां रुवाह तस्यां वैभार्गवृषे सुतावसु मदादय या वी यां जज्ञे तेषां रामेत्यभिविश्रुतः यमाहुर्वासुदेवान् संहयानां कुलान्तकम् ते सप्त कृत्वो य इमां चक्रेणि क्षत्रियां महिं दुष्टं क्षत्रम्भुवो भारम् अब्रह्मण्य मणिन सन् रजस्तमोऽवृतं महन् फल्गुण्यपि कृते राजवाच किं तदहों तदम्भो भगवतो राजन्यैरजितात्मभि कृतं येन कुलं नष्टं क्षत्रियाणाम् अभीक्षणस तेषु कुवाच है हयानाम् अधिपते अर्जुन क्षत्रिय अर्जुनः क्षत्रियर्षव दत्तम् आराध्य आराध्य परिकर्मभि बाहुन्दशशतं लेभे दुर्धर्षत्वम् अरातिषु अव्याहतेन्द्रियौजः श्रुतेजो विर्ययशो बलम् योगेश्वरितमैश्वर्यं गुणायत्राणिमादयः चचारां व्याहत गतिर्लोके सुपवनो यथां श्रीरत्नैरावृतक्रीडन् देवाम्भसि मदोत्कटः वैजयन्तीं सजं बिभ्रन्द्रोध सरितं भुजैः विप्लावितं स्वशिबिरं नामृत्यत्तस्य तद्विरयं वीरमाने दसाननः गृहेतो लीलया स्त्रीणां समक्षं कृतकिल्बुष माहिष्मत्यां संरुद्धो मुक्तो येन कपिल यथा स एकदा तु मृगियां विचरन् विपुन् विपुने वने यदीक्षया श्रमपदं तस्मै स नरदेवाय मुनिर्हणमाहरन् सैन्यामात्यवाहाय हविस्मत्या तपोधनः स वीरस्तत्र तद्दृष्ट्वा आत्मैश्वर्य च सायनं तन्नाद्रियताग्निहोत्र्यां साभिलाषसहय अविर्धाने मृषे दर्पान्न रान् हर्तुमचोदयन् ते च माहि स्मतिं नन्युः संवसां